अथ त्रयस्त्रिंशः सर्गः अथ प्रतिसमादिष्टो लक्ष्मणः परवीरः प्रविवेशगुहाम् रम्याम् किष्किन्धाम् रामशासनात् द्वारस्थाहरयस्तत्र महाकायामहाबलाः बभोगुर्लक्ष्मणम् दृष्ट्वा सर्वे प्राञ्जलय स्थिताः निःश्वसन्तम् तु दृष्ट्वा क्रुद्धम् दशरथात्मजम् बभूवुर्हरयस्त्रस्ता न जैवम् पर्यवारयन् सताम् रत्नमयीम् दिव्याम् श्रीमान् पुष्पितकाननाम् रम्याम् रत्नसमाकीर्णाम् ददर्श महतीम् गुहाम् हर्म्य प्रासादसम्बाधाम् नाना रत्नोपशोभिताम् सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभिताम् देवगन्धर्वपुत्रैश्च वानरैः कामरूपिभिः दिव्यमाल्याम्बरधरैः शोभिताम् प्रियदर्शनैः चन्दना गुरुपद्मानाम् गन्धैः सुरभिगन्धिताम् मैरेयाणाम् मधूनाम् च सम्मोदितमहापथाम् विन्ध्यमेरुगिरिप्रख्यैः प्रासादैर्मैकभूमिभिः ददर्श गिरिनद्यश्च विमलास्तत्र राघवः अङ्गदस्य गृहम् रम्यम् मैन्दस्य द्विविधस्य च गभयस्य गवाक्षस्य गजस्य शरभस्य च विद्युन्मालेश्च सम्पाते सूर्याक्षस्य हनूमतः वीरबाहोस्वबाहोश्च नलस्य च महात्मनः कुमुदस्य सुषेणस्य तानजाम्बवतोस्तथा दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः एतेषाम् कपि मुख्यानाम् राजमार्गे महात्मना ददर्श गृहमुख्याणि महासाराणि लक्ष्मणः पाण्डुराभ्रप्रकाशानि गन्धबाल्ययुतानि च प्रभूतधन धान्यानि स्त्रीरत्नैः शोभितानि च पाण्डुरेण तु शैलेन परिक्षिप्तम् दुरासदम् वानरेन्द्रगृहम् रम्यम् महेन्द्रसदनोपमम् शुक्लैः प्रासाद शिखरैः कैलासशिखरोपमैः सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभितम् महेन्द्रदत्तैः श्रीमद्भिर्नीलजीमूतसन्निभैः दिव्यपुष्पफलैर्वृक्षैः शीतच्छायैर्मनोरमैः हरिभिः संवृत द्वारम् बलिभिः शस्त्रपाणिभिः दिव्यमाल्यावृतम् शुभ्रम् तप्त काञ्चन तोरणम् सुग्रीवस्य गृहम् रम्यम् प्रविवेश महाबलः अवार्यमाणः सौमित्रिर्महाभ्रमिव भास्करः ससप्तकक्ष्या धर्मात्मा यानासनसमावृताः ददर्श सु महद्गुप्तम् ददर्शान्तः पुरम् महत् हैमराजत पर्यङ्कैर्बहुभिश्च वरासनैः है। महार्हास्तरणोपेतैस्तत्र तत्र समावृतम् प्रविशन्नेव सततम् शुश्राव तन्त्रीगीतसमाकीर्णम् समतालपदाक्षरम् बह्वेश्च विविधाकारारूपयौवनगर्विताः स्त्रियः सुग्रीवभवने ददर्शसमहाबलः दृष्ट्वाभिजनसम्पन्नास्तत्र माल्यकृतस्वजः वरमाल्यकृतव्यग्राभूषणोत्तमभूषिताः नातृप्तान्नातिचाव्यग्रान्नानुदात्त सुग्रीवानुचरांश्चापि लक्षयामास लक्ष्मणः पूजितम् नूपुराणाम् च काञ्चीनाम् निःस्वनम् तथा स निशमयततः श्रीमान् सौमित्रिर्लज्जितोऽभवत् रोषवेगप्रकुपितः श्रुत्वा चाभरणस्वनम् चकारज्यास्वनम् वीरो दिशः शब्देन पूरयन् चारित्रेण महाबाहुरपकृष्टः तस्थावेकान्तमाश्रित्य रामकोपसमन्वितः तेन चापस्वनेनाथ सुग्रीवः प्रवगाधिपः विज्ञायागमनन्त्रस्तस्य च चालवरासनात् अङ्गदेन यथा मह्यम् पुरस्तात् प्रतिवेदितम् सुव्यक्तमेष सम्प्राप्तः सौमित्रिर्भ्रातृवत्सलः अङ्गदेन समाख्यातो ज्यास्वनेन च वानरः बुबुधे लक्ष्मणम् प्राप्तं मुखम् चास्य व्यशुष्यता ततस्ताराम् हरिश्रेष्ठः सुग्रीवः प्रियदर्शनाम् उवाचहितमव्यग्रस्त्रास सम्भ्रान्तमानसः किम् नुरुट्कारणम् शुभ्रप्रकृत्या मृदुमानसः सरोष इव सम्प्राप्तो येनायम् राघवानुजः किम् पश्यसि कुमारस्य रोषस्थानमनिन्दिते न खल्वकारणे कोपमाहरे नरपुङ्गवः यद्यस्य कृतमस्माभिर्बुध्यसे किञ्चिदप्रियम् तद्बुद्ध्या सम्भ्रधार्यासु क्षिप्रमेवाभिधीयता अथवा त्वद्दर्शने विशुद्धात्मानस्म कोपम् करिष्यति न हि स्त्रेषु महात्मानः क्वचित् कुर्वन्ति दारुणम् त्वया साम् त्वैर्भक्रान्तम् प्रसन्नेन्द्रियमानसम् ततः कमलभद्राक्षम् द्रक्ष्याम्यहमरिन्दमम् सा प्रस्खलन्ती मदविह्वलाक्षी प्रलम्बकाञ्चि स लक्षणा लक्ष्मण सन्निधानम् जगामतारानमिताङ्गयष्टिः सताम् समीक्ष्यैव हरीश पत्नीम् तस्थाबुदासीनतया महात्मा अवाङ्मुखो भोन्मनुजेन्द्र पुत्र स्त्री सन्निकर्षाद् विनिवृत्तकोपः सापानयोगाच्च निवृत्त उवाच तारा प्रणयप्रगल्भम् वाक्यम् महार्थम् परि सान्त्वरूपम् किम् कोपमूलम् मनुजेन्द्रपुत्रकस्तेन सन् तिष्ठति वाङ्निदेशे कशुष्कवृक्षम् वलमापतन्तम् दवाज्ञिमासीदति निर्विशङ्कः स तस्यावचनम् श्रुत्वा सान्त्वपूर्वमशङ्कितः भूयः लक्ष्मणो वाक्यमब्रवीत् किमयम् कामवृत्तस्ते लुप्तधर्मार्थसङ्ग्रहः भर्ता भर्तृहिते युक्ते न चैनमवबुध्यसे न चिन्तयति राज्यार्थम् सोऽस्माच्छोकपरायणा का सामार्थपरिषत्तारे काममेवोपसेवते समासांश्चतुरः कृत्वा प्रमाणम् प्लवगेश्वरः यतीताम् स्तान्मदोदग्रो विहरन्नावबुध्यते न हि धर्मार्थसिद्ध्यर्थम् पानमेवम् प्रशस्यते पानादर्थश्च कामश्च धर्मश्च परिहीयते धर्मलोपो महांस्तावत्कृते ह्यप्रतिकुर्वतः अर्थलोपश्च मित्रस्य नाशे गुणवतो महान् मित्रम् ह्यर्थगुणश्रेष्ठम् सत्यधर्मपरायणम् तद्वयम् तु परित्यक्तम् न तु धर्मे व्यवस्थितम् तदेवम् प्रस्तुते कार्ये कार्यमस्माभिरुत्तरम् तत्कार्यम् कार्य तत्त्वज्ञे त्वमुदाहर्तुमर्हसि सा तस्य धर्मार्थसमाधियुक्तम् निशम्य तारागतार्थे मनुजेन्द्रकार्ये विश्वासयुक्तम् तमुवाच भूयः न विधेयः त्वदर्थ कामस्य जनस्य तस्य प्रमादमप्यर्हसि वीर सोढुम् कोपम् कथम् नाम गुण प्रकृष्टः कुमार कुर्यादपकृष्टसत्त्वे कस्त्वद्विदः जानामि कार्यम् त्वयि यत् कृतम् नस्तच्चापि जानामि यदत्र तच्चापि जानामि तथा विषह्यम् बलम् नर श्रेष्ठशरीरजस्य जानामि यस्मिंश्च कामेन सुग्रीवमसक्तमद्य न तव बुद्धिरस्तित्वम् वै यथा प्रपन्नः न देश कालौ हि यथार्थ धर्माववेक्षते कामरतिर्मनुष्यः तम् कामवृत्तम् मम सन्निकृष्टम् कामाभियोगाच्च विमुक्तलज्जम् क्षमस्व तावत् परवीरहन्तस्त्वद्भ्रातरम् महर्षयो धर्म तपोभिरामाः प्रतिबद्धमोहाः अयम् प्रकृत्या च कथम् न सज्जेत सुखेषु राजा इत्येवमुक्त्वा वचनम् महार्थम् सा वा नरीलक्ष्मणमप्रमेयम् पुरः सखेदम् मद विह्वलाक्षी भक्तुर्हितम् वाक्यमिदम् बभाषे उद्योगस्तु चिराज्ञप्तः सुग्रीवेण नरोत्तमा कामस्यापि विधेयेन आगता हि महावीर्या हरयः कामरूपिणः कोटिशतसहस्राणि नानानगनिवासिनः तदागच्छ महाबाहोचारित्रम् रक्षितम् त्वया अच्छलम् मित्रभावेन सताम् दारावलोकनम् तारया चाभ्यनुज्ञातस्त्वरया वापि चोदितः प्रविवेशमहाबाहुरभ्यन्तरमरिन्दमः ततः सुग्रीवमासीनम् काञ्चने परमासने महार्हास्तरणोपेते ददर्शादित्यसन्निभम् दिव्याभरणचित्राङ्गम् दिव्यरूपम् यशस्विनम् दिव्यमाल्याम्बरधरम् महेन्द्रमिव दुर्जयम् दिव्याभरणमाल्याभिः दिव्या प्रमदाभिः समावृतम् संरब्धतर रक्ताक्षो बभूवान्तकसन्निभः रुमान्त वीरः बरासनस्थो गाढम्बरासनस्थोमर हेमवर्णः ददर्श सौमित्रिमदीन सत्त्वम् विशाल नेत्रः स इत्यार्षे श्रीमद् रामायणे आदिकाव्ये किष्किन्धा काण्डे सर्गः